मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं सेवेन्टीन् शेषयोगोपदेशवर्णनं श्रीगणेशाय नमः मुद्गल उवाच पुरा कश्यपविप्रेणाराधितौ तपसा प्रभू शिवविष्णु च पुत्रार्थं मन्द्रध्यानसमाधिना दशवर्षे गदे तौ च वरदौतं समागतौ सुतौ मुनिवरेणैव वरं दत्त्वा प्रजग्मधुः तयोरं पुत्रस्तस्य बभूवः धराधरणभावेन पालको विष्णुरेव सः ब्रह्मणो दिवसान्ते सज्ज्वालया विष्टपं महद ददाः शङ्करांशश्च महानागः प्रतापवान् सहस्रशीर्षपुरुषशेष एव स उच्यते मृत्युहीनो ह्यनन्दोऽयं सर्वेषामन्दको भवत् लय एकोवशेषश्च तेन शेषप्रकीर्तितः ब्रह्माण्डं धारयामास सर्वाधारो बभूवः उत्पन्नो भूत् स्वयं शेषसाक्षाद्धरिहरात्मकः ब्रह्मणागत्य तत्रैवाभिषिक्तो राज्यकर्मणि नागानामीश्वरो भूत्वा स्थित सर्वत्र सम्मदः नत्वा जगाद वचनं हितं शेष उवाच ब्रह्माण्डम् धारयामीश कथं सर्वसमाकुलम् तदर्थं महायोगिन् शाधि शिष्यम् पिदः तदस्तस्मै मुनिश्रेष्ठो ददौ मन्त्रं षडाक्षरं गणेशस्य यथा न्यायं शोधयित्वा प्रजापदे तदस्थं प्रणिपत्यैव तताप तप वने गत्वा गणेशं स ध्यात्वा जपपरायणः निराहारेण विघ्नेशं तोषयामास नित्यदा पुपूजभक्तिसंयुक्तस्तुष्ठाव विविधैस्तवैः एवं वर्षसहस्रेण प्रसन्नो गणनायकः स्ति मात्रावशेषर्षं तं त्वचायुक्तं समाय यौ तं दृष्ट्वा नागपशेषप्रणम्योद्धाय चादराद पुपूजहर्षसंयुक्तस्तुष्ठावकरसम्पुटैः ततस्तं गणराजः स दास्यामि तपसतुष्टो यत्ते चित्ते भविष्यति शेषः प्रणम्य विघ्नेशं जगादहर्षसंयुध ब्रह्माण्डधारणे शक्त्रिं देहिनाथ नमोऽस्तु ते दे। भक्तिं देहिगणाधीश भुक्तिमुक्तिप्रदायिनीं मृत्युहीनं दिशाम् नाधं मां कुरुष्व यशोतिगं तथेति गणराजस्तु तमुक्त्वां तरधात्तदः शेषो हृष्ठस्वयं दक्षस्वस्थानं प्रजगामः तदारभ्य स्वयं नागो धराधारो बभूवः दिक्पालत्वं सदा लेभे मान्यसर्वार्थतो भवत ततो योगबलेनैव नाना मायाविशारदः नानारूपधरस्य शशुशुभे सर्वमण्डले एवं बहौ गदे काले हिरण्यकशिपोऽभयाद ऐश्वर्यं नश्वरं मत्वा भवनार्थमुद्यतः विपुलं स तपस्तप्त्वा शमदमपरायणः योगभूमिस्तभावेनान्तर्निष्ठश्च बभूवः तदक्रमेण नागेश समस्वानन्दगो भवत योगेन तत्र शान्तिं च सदृष्ट्वा संस्थितो भवद विष्णुं ज्ञात्वा परं तदर्थं संयतः स्वयं वैष्णवेनैव मार्गेण तोषयामास केशवं तदस्तं वरदो विष्णुर्ययो शेषेण संस्तुतः याचितो नित्यमेवं मे दर्शनं देहि केशव मदीयदेहसंस्थस्त्वं भवनित्यं जनार्दन तथेति तमुवाचासौ नारायणो बभूवः शशशायी सदा सदेहे स देहे भवद तेन संहर्षिदोऽत्यन्तं बभूवे नागपालकः तदो योगबलेनासौ मायामोहं ददर्शः समानन्दं द्वन्द्वमयमशान्तोऽपि बभूवः एवं बहौ गते काले योगमार्गरदो भवद समाधिना प्रजानाथ सहजम् ब्रह्मसंश्रुतः साहजम् शङ्करम् ज्ञात्वा शैवमार्गपरो भवद ब्रह्मस्वेच्छामयम् दृष्ट्वा शान्तिम् प्राप्य समास्थितः तदस्तं वरद शम्भुराय यौक्तम् प्रणम्य सः चेष्टस्तुष्टावसंहृष्टश्चैवै स्तोत्रैः सदाशिवम् प्रसन्नं शङ्करम् दृष्ट्वा ययाचे भक्तिमुत्तमां सदा दर्शनभावार्थं संगतिं शङ्करस्य सः तथेदि शङ्करो देवः स प्रजापदे मस्तकेतं बबन्धाधनित्यदर्शनकाङ्क्षिणं ततोऽधिकर्षितो नन्दः शम्भु मार्गपरायणः सिषेवे भावसंयुक्तशङ्करं वृषभध्वजं ततो योगबलेनैव शेषस्तत्सभजं परं मोहहीनं विदित्वा स शान्तिहीनो बभूवः मनस्सा शाङ्करं ब्रह्म नामन्यतपरं प्रभुं शिवं नत्वा महानागपप्रच्च योगशान्दितं पात्रं गणेशयोगेतं ज्ञात्वा शेषं सदाशिवः जगाद जगादगणनाथस्य ज्ञानं सर्वहितावहं शिव उवाच योगशान्तिप्रदं पूर्णं गणेशं विद्धिमानद सत्यासत्यसमानानि सहजेन युतानि वै ब्रह्माणि यत्र लीयन्ते संयोगेन महामदे स्वसंवेद्यं तद्वदन्ति ब्रह्म शान्तिप्रदं परम् संयोगे गणनाधस्य स्वसंवेद्यात्मकम् परं दर्शनम् जायते येन भवत्स्वानन्दवासिकः सर्वसंयोगरूपश्च दोषस्तत्र महान् स्मृतः शान्तिप्रदम् पूर्णं नमदं मदं योगिभिः कदा स्वसंवेद्यविहीनं यद्ब्रह्मयोगमयं भवेद् तत्र सन्दर्शनं तस्य न भवेद्व्यतिरेकदः स्वकीयाभ्येततस्तत्र जायते नृणाम् तत्र शान्तिसमाख्यादा सा न मदा बुधैः अयोगात्मकरूपश्च दोषः संवर्तते सदा मायाहीनप्रभावेण तिष्ठते गणनायकः संयोगयोगयोर्योगे योगशान्तिप्रदायकः सा शान्तिः सर्वमान्या वै भवदे वेदवाददः संयोगश्च गकारस्तो णकारो योगगः प्रभो तयोरीशो गणेशानो वेदे पश्य विचक्षण पञ्चभूमिमयं चित्तं तदेव बुद्धिभावगम् मोहो भ्रान्तिप्रतस्तेषु सा सिद्धिस्सम्मदा बुधैः तयोस्वामी गणेशानच्चिन्तामणिप्रकथ्यते चित्तप्रकाशका साक्षात् चान्दिदो योगसेवया तं भजस्व महानागतदशान्दिमवाप्स्यसि नान्यधा कोडिवर्षैकशान्तिम् प्रलभदे नरः एवमुक्त्वा महादेवो विररामसदम् प्रभुः प्रणम्य शेषनागश्च ययौ तपोवनम् परम् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शेषयोगोपदेशवर्णनं नाम सप्तदशोऽध्यायः ॐ